यद्यनेन हतो बाल्ये शकुनिश्चित्रमत्र किम् तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ चेतनारहितम् काष्ठम् यद्यनेन निपातितम् भीष्म तत्र किम् कृतमद्भुतम् अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ वल्मीकमात्रः सप्ताहं यद्यनेन धृतोचलह तदा गोवर्धनो भीष्म न मम मुक्तमेतेन बह्वन्नम् क्रीडता न गमूर्धनि भीष्म शृण्वानाः परे विस्मयमागताः यस्य चानेन धर्मज्ञ भुक्तमन्नम् बलीयसः स चानेन इत्ये महाद्भुतं न ते श्रुतमिदम् भीष्म नूनं कथयतां सतां यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम